गरुडपुराणम् प्रेतकाण्डम् धर्मकाण्डम् अध्यायम् त्रि सूद उवाच एवमुत्साहितपक्षीस्वरूपम् निरयस्य तु पप्रच्छ नरकाण्येवं श्रुत्वा चोत्कूलितान्तरः गरुड उवाच नरकाणां स्वरूपं मे वदयेषु विकर्मिणः पाद्यन्ते दुःखभूयिष्ठास्तेषां भेदांश्च कीर्तय श्रीभगवानुवाच नरकाणां सहस्राणि वर्धन्ते ह्यरुणानुज शक्यं विस्तरदो नैव वक्तुं प्राधान्यदो ब्रुहे रौरवं नाम नरकं मुख्यं तद्धुवै रौरवे कूटसाक्षिदूयादि यश्चानृदीनरः यो जनानां सहस्रे द्वे रौरवो हि प्रमाणदः जानुमात्रप्रमाणं तु तत्र गर्तं सुदुस्तरं तत्रांगार च यौकेन कृतं तद्धरणी समं तत्राग्निना सुव्रेण ङ्गारभूमिना तन्मध्ये पापकर्मणं विमुञ्चन्ति यमानुग न दह्यमानस्तीव्रेण वह्निना पदे पदे जा पदे जादोऽस्य स्फुट्यदे शीर्यदे पुनः अहोरात्रेणोद्धरणं पादन्यासे गच्छति एवं सहस्रं विस्तीर्णं योजनानां विमुच्यते ततोऽन्यत्पापशुद्ध्यर्थं ता तादृङ् निरयमृच्छति रौरवस्ते समाख्यातप्रथमो नरको मया महारौरवसंज्ञं तु शृणुष्व नरकं खग योजनानां सहस्राणि सन्ति पञ्चसमन्तदः तत्र ताम्रमयी भूमिरधस्तस्यानः पयातपन्द्या सा सर्वा प्रोद्यद्विद्युत्समप्रभा विभाव्यदे महारौद्रापादिना दर्शनादिषु तस्यां बद्धकराभ्यां च पद्भ्यां चैव यमानुगैः मुच्यते पपकृन्मध्ये लुण्ठमानः स गच्छति काकैर्बकैर्काैर्बकैर्भृकोलूकैर्मशकैर्वृश्चिकैस्तथा का का भक्ष्यमाणैस्तथा रौद्रायर्गदो मार्गे विकृष्यते दह्यमानो गदमधिर्भ्रान्तस्तादेदि चकुलः वदत्य सकृद्वग्नो न शान्तिमधिगच्छति एवं तस्मान्नरैर्मोक्षस्त्वधिक्रान्तैरवाप्यते वर्षायुधायुधै पापं ह्यैकृतं दुष्टबुद्धिभिः तथान्यस्तु तदो नाम सोऽशीधस्वभावदः महारौरव दीर्घस्तथान्तत्तमसा वृतः शीतार्तास्तत्रबध्यन्ते नरास्तमसि दारुणे परस्परम् समासाद्यपरिरभ्याश्रयन्ति ते दन्दास्तेषाम् च भज्यन्ते शीतार्तिपरिकम्पिताः शुतृशादिबलाः पक्षिन्नदतत्राप्युपधवाः तत्राप्युपद्रवाः तत्राप्यु हिमखण्डवहो वायुभिनत्यस्ति निदारुणः मज्जासृगस्त्रिगलितमस्रन्द्यत्र क्षुधान्विताः आलिङ्ग्यमाना भ्राम्यन्ते परस्परसमागमे एवं तत्रापि सुमहान् क्लेश्यस्तमसि मानवैः प्राप्यते सुगनिःश्रेष्ठ यो बहूकृतसञ्चयः कृन्दनयिख्यादस्तदोऽन्यो नरकोत्तमः कुलालचक्राणि तत्र भ्राम्यन्त्यविरतं खग तेष्वा पाश्ये निकृष्यन्ते कालसूत्रेण मानवाः यमानो माङ्गुलिस्थेन आपादतलमस्तकम् न चैषाम् जीविदभ्रंशो जायते पक्षिसत्तमा चिह्नानि तेषाम् शतशण्डान्यैक्यम् एवं वर्षसहस्राणि भ्राम्यन्ते पापकर्मिणः तावद्यावदशेषं च तत्पापं संक्षयं गदं अप्रतष्टं च नरकं शृणुष्व गदो मम तत्र स्थायैर्नारकैर्दुःखमसह्यमनुभूयते तान्येव तत्र चक्राणि कडीयन्त्राणि चान्यतः दुःखस्य हेतुभूतानि पामकर्मकृता नृणां चक्रेष्वारोपिता केचिद्भ्राम्यन्ते तत्र मानवाः यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा कडीयन्त्रेषु बद्ध्वा ये बद्धातो यवडीयथा ब्राह्म्यन्दे मानवारकतमुद्गिरन्धः पुनः पुनः अन्ध्राैर्मुखविनिष्क्रान्तैर्नेत्रैरन्ध्रा बलं बिभैः दुःखानि प्राप्नुवन्तिह यान्यसह्यानि जन्तुभिः अतिपत्रवनं नाम नरकं शृणु चापरं योजनानां सहस्रं यो ज्वल त्यग्ना श्रुतावनिः सप्ततीव्रकराश्चैन्तर्यत्र तीव्र सुदारुणे प्रतपन्दि सदा तत्र प्राणिनो नरकौकसः तन्मध्ये चरणं शीदस्निग्धपत्रम् विभाष्यते पत्राणि यत्र खण्डानि फलानाम् पक्षिसप्तमा श्वानश्च तत्र सुबलाश्चरन्द्यामिषभो जनाः महावक्त्रा महादंष्ट्रा व्याघ्रा दह्यमानाङ्घ्रियुगलाधरणिस्तेन वह्निना तेषां गतानां तत्रापि अतिशीदि समीरणः प्रवादितेन पाद्यन्ते तेषां खड्गास्तधोपरि चिन्नापतन्ति ते चिन्ना भूमौज्ज्वलत् पावकसंचये ले लिख्यमाने चान्यत्र तप्ताशेषमहीतले सारमे याश्च शीघ्रं साधयन्ति शरीरतः तेषां खण्डान्यनेकानि रुददामदिभीषणे अतिपत्रवनं तादमय्यै तत्परिकीर्तितम् अतः परं भीमतरं तप्तकुम्भं निबोध मे समन्त समन्दतस्तप्तकुम्भा वन्निज्वाला समन्विताः ज्वलदग्निचयास्तप्तैलायश्चूर्णपूरिताः येषु दुष्कृतकर्मणो याम्यैः क्षिप्ता ह्यधोमुखाः क्वाध्यन्ते विस्फुटद्गात्रा गलन्मज्जा स्फुटकपाले नत्रास्ति चिद्यमाना चिद्यमानाविभीषणैः गृघ्रैरुत्पाट्यमुच्यन्ते पुनस्तेष्वेववेकितैः पुनश्चिमचिमायान्ते पुनश्चिमचिमायन्ते तैलनैक्यं व्रजन्ति च द्रवीभूतैशिरोगात्रैः स्नायुमां सत्त्वगास्तिभिः तदो याम्यैर्नरैराशु दर्व्याखट्टनखट्टिताः कृता वर्ते महातैले वाध्यन्ते पापकर्मिणः यष दे विस्तरेणोक्तस्तप्तकुम्भो मया गग आदिमो रौरव प्रोक्तो महारौरवकोपरः अधिशीतस्तृदि यस्तु चतुर्धो हि निकृन्तनः अप्रतिष्ठपञ्चमस्यादसिपत्रवनोपरः सप्तमस्तप्तकुम्भस्तु सप्तैदे नरकामताः श्रूयन्तेऽन्यान्यपि तथा नरकाणि नराधमाः कर्मणां तारतम्येन तेषु तेषु पतन्दिः तथा हि नरकोरोधशूकरस्ताल एव च तप्तकुम्भोमहाज्वालशबलोधविमोचनः कृमिश्च कृमिभक्षश्च लालाभक्षो विषञ्चनः अधः शिराः पूयवहो रुधिरान्धश्च वैतरणी सुमसि पत्रवनं तथा अग्निज्वालो महाघोरस दंश्यो वाप्यभोजनः तमश्च कालसूत्रं च लोहश्चाप्यभिधस्तथा अप्रतिष्ठोऽप्यवीचिश्च नरका एवमादयः तामसा नरका सर्वे यमस्य विषये स्थिताः येषु दुष्कृतकर्मण पतन्तिः पृथक् पृथक् भूमेरधस्तात्ते सर्वे रौरवाध्याप्रगिहृदिदाः रोगो गोघ्नो भ्रूणः च अग्निदाधा नरपदेत सुकरे ब्रह्महा मज्जेत सुरापस्वर्णतस्परः ताले पदेक्षत्रहन्दाहत्वा वैश्यं च दुर्गतिः ब्रह्मपत्यां च यकुर्याद्यश्च स्याद्गुरुतल्पकः स्वसृगामी तप्त कुम्भी तथा राजभटो नृती तप्त लोहैश्च तथा बन्धनरक्षिता माध्वीविक्रयकर्तां च यस्तु भक्कृतं परित्यजेत महाज्वालीदुहितरं स्नुषां गच्छति यस्तु वै वेदो विक्रीयते यैश्च वेदं दूषयते तु यः गुरुं चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च अगम्या च नरो नरकं शबलं व्रजेद विमोहे पतते सूरे मर्यादां यो भिनत्ति वै दुरिष्टं गुरुदे यस्तु कृमिभक्षं प्रपद्यते दे। देवब्राह्मणविद्वेष्टाला भक्षे पतत्यपि कुण्डकर्ता कुलालश्चन्यासहर्ता चिकित्सकः आरामेषु अग्निदाता च ये देयान्तिविषने असत्प्रतिग्रही यस्तु तथैवा याज्यया जगः नक्षत्रायुर्जोवदे यस्तु नरो गच्छे दधोमुखं क्षीरं सुरां च लाक्षां गन्धं रसं तिलान् येवमादीनि विक्रीणन् घोरे पूय वहेपदेद यः कुक्कुडान्निबध्नादि मार्जारान् सुकरांश्च तान् पक्षिणश्च मृगांश्चागान् सोप्येवम् नरकम् प्रजेद आजाविको माहिषिकस्तथा चक्रिध्वजी चयः रङ्गोपजीविको विप्रशानिर्ग्रामया जगः अकारदा हि गरदकुण्डाशी सोमविक्रयी सुराभो मांसभक्षी च तथा च पशुपादकः रुधिरान्धे पदन् द्येदे पदन्ध्येदे एवमाहुर्मनीषिणः उपविष्टन्त्वेकभङ्क्रियां विषं सम्भोजयन्ति ये पदन्तिनिरये घोरे विद्भुजे नात्र संशयः मधुग्राहो माक्रोशी मूत्रसंज्ञगे असिपत्रवने सौजी क्रोधनश्च येते तेदपि अग्निज्वालां मृगव्याधो भोज्यते यत्र वायसैः विज्ञायाम्रतलोपा च सन्तंश्ये नरके पदेद् स्कन्धे यदि वा यदिनो यदि नो ब्रह्मचारिणः पुत्रैरध्यापिता ये च ते सर्वे नरकं यान्ति निरयं चाप्यभोजनम् वर्णाश्रमविरुद्धानि क्रोध हर्षसमन्विताः कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः उपरिष्ठासिदोघोर उष्णात्मा रौरवो महान् सुदारुणः सुशीदात्मा तस्याधस्तामसस्मृदः एवमादिक्रमेणैव सर्वे धोद्धपरिस्थिताः दुःखोत्कर्षश्च सर्वेषु कर्मस्वपि निमित्तितः सुखोत्कर्षश्च सर्वत्र धर्मस्येह निमित्तदः पश्यन्ति नरकान्धे वाह्यथो वक्त्रान् सुदारुणान् नरकाश्चा विदेवान् सर्वान् पश्यन्ति ऊर्ध्वगान् वियद्गदे एकं दिनं वर्षशतप्रमाणं नरगे भवेद् तत् सर्वेषु निस्तीर्णपापि तिर्य क्रुवमश्नुते कृमिक्रीडपदङ्गेषु स्थावरैकशभेषु च गत्वा वनगजाढ्येषु गोष्वेषु तथैव च करोश्वोश्वस्तरो गौरशरभश्च मरी तथा ये ते चैकशभाषच्चशृणु पञ्चनखानदः अन्यासु बहुपाभासु दुःखदासु च योनिषु मानुष्यं प्राप्य दे कुब्जो कुत्सितो वा मनोऽपि वा चण्डालपुक्कसाध्यासु नरयो निषुजायते मुहुर्गर्भे वसन्त्येवं म्रियन्ते च मुहुर्मुहुः अवशिष्टेन पापेन पुण्येन च समन्वितः एवं तु पापकर्मणो निरयेषु पतन्त्यथः यथा पुण्यकृतो यान्ति तन्मे निगदधश्रृणु ते यमेन विनिर्दिष्टां योनिं पुण्यगतिं नराः हा। प्रकीतगन्धर्वगणानृत्योत्सवसमाकुलाः हा। हारनूपुरमाधुर्यैशोभि्यमलानि तु प्रयान्त्याशुविमानानि दिव्यगन्धस्रगुज्ज्वलाः तस्माच्च प्रच्युदा राज्ञामन्येषां च महात्मनां जायन्ते नीरुजां गेहे सद्वृत्तिवीरपालकाः भोगान् सम्प्राप्नुवन्त्युग्रांस्तदो यान्ति ऊर्ध्वमन्यथा अवरोहिणीं संप्राप्य पूर्ववद्यन्तिमानवाह जातस्य मृत्युलोके वैप्राणिनो मरणं ध्रुवन् पापिष्टानामदो मार्गाज्जीवो निष्क्रमदे ध्रुवन् पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सुजा तेजस्तेजसि लीयते समीरे च समीरणः आकाशे च तथाकाशम् सर्वव्यापिनिशाकरे तत्र कामस्तथा क्रोधकाये पञ्चेन्द्रियाणि च यदेताक्ष्य समाख्यादादेहे तिष्ठन्ति तस्कराः कामक्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः संहारस्तैव कालोऽसौ पुण्यपापेन संयुधः पञ्चेन्द्रियसमयुक्तसकलैर्विबुधैः सह प्रविशेत्स न वे देहे प्रहे दरधे गुही यथा शरीरे ये सर्वे वै सप्तधाधवः सर्वे वाताश्च देहिनाम् मूत्रम्बुरीशं तद्योगाद्ये चान्ये व्याधयस्तथा पित्तं श्लेष्मा तथा मज्जामांसं वै मेध अस्ति शुक्रं तथा स्नायुर्देहेन सह दह्यदि येषे कथितस्ताक्ष्य विनाशः सर्वदेहिनम् कथयामि पुनश्चेषां शरीरं च यथा भवेद एकस्तम्भं स्नायुबद्धं स्तूणात्रयविभूषणम् इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् विषयैश्च समाक्रान्तं कामक्रोधसमाकुलं रागद्वेषसमाकीर्णं तृष्णा दुर्गमतस्करं लोभजालपरिच्छिन्नं मोहवस्त्रेणवेष्टितं सुबद्धं मायया चैतल्लोभेनाधिष्ठितं पुरं ये शरीरं सर्वदेहिनाम् आत्मानं येन जानन्ति ते नराः पशव शरीरं ते चतुर्विधम् चतुरशीतिलक्षाणि निर्मितायोनयः पुरा उद्भिज्जा स्वेदजाश्चैव अण्डजाश्च जरायुजाः ये दत्ते सर्वमख्यादम् निरयस्य प्रपञ्चतः अधा अभयामि क्रमप्राप्तं प्रष्टु वा वर्तदे स्पृहा महापुराणे धर्मकाण्डे श्रीकृष्णगरुडसंवादे नरकतत्प्रवेशनिर्गमनादिवर्णनं नाम तृतीयोऽध्यायः ओम्